दशः सर्गः सरीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् अवेक्षमाणश्च महीम् सर्वान् तामन्ववैक्षता सन्तानकलताभिश्च पादपैरुपशोभिता दिव्यगन्धरसोपेताम् सर्वतः समलङ्कृता ताम् हर्माद संवादा कोकिलाकु निस्वना काफल पद्र्वापीपोभितता बह्वासनकुथोपेता बहुभूमिगृहायुता सर्वर्तुकुसुमरम्य फलवद्द्भिच पादपै पुष्ताशोकाना श्रिया सूर्योदय प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत निष्पत्रशाखाम् विहगैः क्रियमाणामिवासकृत् विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः समूलपुष्परचितैरशोकैः शोकनाशनैः पुष्पभारातिभारैश्च शो स्पृशद्भिरिव मेदिनीम् कर्णिकारैः कुसुमितैः किंशुकैश्च स प्रभयातेषां प्रभया तेषाम् प्रदीप्त इव सर्वतः पुन्नागाः सप्त पर्णाश्च चम्पकोद्दालकास्तथा विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः शातकुम्भनिभाः केचित् केचिदग्निशिखप्रभाः नीलाञ्जननिभाः सहस्रशः नन्दनम् विबुधोद्यानम् चित्रम् चैत्ररथम् यथा अतिवृत्तमिवाचिन्त्यम् दिव्यम् रम्यश्रियायुतम् द्वितीयमिव चाकाशम् पुष्पज्योतिर्गणायुतम् पुष्परत्नशतैश्चित्रम् पञ्चमम् सागरम् यथा सर्वत्वपुष्पैर्निचितम् पादपैर्मधुगन्धिभिः नानानिदानैरुद्यानम् रम्यम् मृगगणद्विजैः अनेकगन्धप्रवहम् पुण्यगन्धम् मनोहरं। शैलेन्द्रमिव गन्धाढ्यम् द्वितीयम् गन्धमादनम् अशोकबलिकायाम् तु तस्याम् वानरपुङ्गवः सददर्शाविदूरस्थम् चैत्यप्रासादमूर्जितम् मध्येयस्तम्भसहस्रेण स्थितम् कैलासपाण्डुरम् प्रबालकृतसोपानम् मुष्णन्तमिव चक्षुंषि द्योतमानमिव श्रिया निर्मलम् प्रांशु भावत्वादुल्लिखन्तमिवाम्बरम् ततो मलिनसंवीताम् राक्षसीभिः समावृताम् उपवासकृशाम् दीनाम् निःश्वसन्तीम् पुनः पुनः रूपेण रुचिरप्रभाम् पिनद्धाम् धूमजालेन शिखामिव विभावसोः पीतेनैकेन संवीताम् क्लिष्टेनोत्तमवाससा सपङ्कामलङ्काराम् विपद्मामिव पद्मिनीम् पीडिताम् दुःखसन्तप्ताम् परीक्षीणाम् तपस्विनीम् ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् अश्रुपूर्णमुखीम् दीनाम् कृशामनशनेन च शोकध्यानपराम् दीनाम् नित्यम् दुःखपरायणा प्रियम् जनमपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् स्वगणेन मृगीम् हीनाम् श्वगणेनावृतामिव नीलनागाभयावेण्या जघनम् गतयैकया नीलया नीलदापाये वनराज्यामहीमिव सुखार्हाम् दुःखसन्तप्ताम् व्यसना नाम कोविदा ताम् विलोक्य विशालाक्षीमधिकम् मलिनाम् कृशा तर्कयामास सीतेति रक्षसा कामरूपिणा यथा रूपा हि दृष्टा सा तथा रूपेयमङ्गना पूर्णचन्द्राननाम् कुर्वतीम् प्रभया देवीम् सर्वा वितिमिरादिशः ताम् नीलकण्ठीम् बिम्बोष्ठीम् सुमध्याम् सुप्रतिष्ठिता सीताम् पद्मपलाशाक्षीम् मन्मथस्य रतिम् यथा इष्टाम् सर्वस्य जगतः पूर्णचन्द्रप्रभामिव भूमौ सुतनुमासीनाम् नियतामिव तापसीम् निःश्वासबहुलाम् भीरुम् भुजगेन्द्रवधूमिव शोकजालेन महता विततेन न राजती संसक्ताम् धूमजालेन शिखामिव विभावसोः ताम् स्मृतिमिव सन्दिग्धा वृद्धिम् निपतितामिव विहतामिव च श्रद्धामाशाम् प्रतिहतामिव सोपसर्गाम् यथासिद्धिम् बुद्धिम् सकलुषामिव अभूतेनापवादेन कीर्तिम् निपतितामिव रामोपरोधव्यथिताम् रक्षोगणनिपीडिताम् अबलाम् मृगशाबाक्षीम् वीक्षमाणाम् ततस्ततः बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा वदनेना प्रसन्नेन निःश्वसन्तीम् पुनः पुनः मलपङ्कधराम् दीनाम् मण्डनार्हामण्डिता प्रभाम् नक्षत्रराजस्य कालमेघैरिवावृता तस्य सन्दिहे बुद्ध्यस्तथा सीताम् निरीक्ष्य च आम्नायानामयोगेन विद्याम् प्रशिथिलामिव दुःखेन बबुधे सीताम् हनुमाननलङ्कृता संस्कारेण यथाहीनाम् वाचमर्थान्तरम् गता ताम् समीक्ष्य विशालाक्षीम् राजपुत्रीमनिन्दिता तर्कयामासससीतेति कारणैरुपपादयन् वैदेह्यायानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् तान्याभरणजालानि गात्रशोभीन्यलक्षयत् सुकृतौ कर्णवेष्टौ च श्वदंष्टौ च सुसंस्थितौ मणि विद्रुमचित्राणि हस्तेष्वाभरणानि च श्यामानि चरयुक्तत्वात् तथा संस्थानवन्ति च तान्येवैतानि मन्येऽहम् यानि रामोऽन्वकीर्तयत् तत्र यान्यवहीनानि तान्यहम् नोपलक्षये यान्यस्यानावहीनानि तानि मालिन संशयः पीतम् कनकपट्टाभम् स्रस्तम् तद्वसनम् शुभम् उत्तरीयम् नगासक्तं गासक्तम् तदा दृष्टम् प्लवङ्गमैः भूषणानि दृष्टानि धरणीतले अनयैवापविद्धानि स्वनवन्ति महान्ति च इदम् चिरगृहीतत्वाद्वसनम् क्लिष्टवत्तरम् तथाप्यनूनम् तथा, तथा श्रीमद्यथेतरत् इयम् कनकवर्णाङ्गी रामस्य महिषी प्रिया प्रणष्टापि सती यस्य मनसो न प्रणश्यति इयम् सा यत्कृते रामश्चतुर्भिरिहतर्प्यते कारुण्येनानुशंस्येन शोकेन मदनेन च स्त्रीप्रणष्टेति कारुण्यादाश्रितेत्यानुशंस्यतः पत्नी नष्टेति शोकेन प्रियेति मदनेन च अस्या देव्या यथारूपमङ्गप्रत्यङ्गसौष्ठवम् रामस्य च यथा रूपम् तस्येयमसिते क्षणा अस्यादेव्या मनस्तस्मिंस्तस्य चाम् प्रतिष्ठितम् तेनेयम् स च धर्मात्मा मुहूर्तमपि जीवति दुष्करम् कृतवान् रामो हीनो यदनया प्रभुः धारयत्यात्मनो देहम् न शोकेनावसीदति एवम् सीताम् तथा दृष्ट्वा हृष्टः पवनसम्भवः जगाममनसा रामम् प्रशशंस च इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चदशः